गणेशपुराणं क्रीडाखण्डम् अध्यायम् फोर्टि एय्ट् मुनिरुवाच त्यक्तं राज्यमिति ज्ञात्वा निजं रूपं समाश्रितः अवसत् सर्वलोकानां धुण्डिस्तत्रार्थदायकः दूर्धञ्च प्रेषयामास शीघ्रमागम्यतामिति शङ्कराय महाबुद्धिस्ततः स हर्षनिर्भरः आरुह्य वृषभं देवो ययौ वाराणसीं पुरीं दिव्यवादित्रनिर्घोषैस्वगणैः परिवारितः जैगीषव्यम् निराहारं वल्मीकमिव संस्थितम् अनुगृह्यययौ दुण्डिम् प्रणम्य च उवाच तं शिव उवाच त्वमेव विश्वेश्वरविश्वरूप विश्वं सृजस्यत्सि हि पासि देव शुभाशुभं कर्म निरीक्ष्य तस्य ददासि भोगं विविधं गणेश ब्रह्मापि सृष्टिं कुरुतेऽङ्गितात्ते तद्रक्षणं चैव हरिस्तथाहं संहारकारीहचराचरस्य विभागकृत्यं हि गुणत्रयस्य तव प्रसादाद्धरिरब्जोऽपि शिवश्च शक्तो निजकर्मसिद्ध्यै त्वया विना वेदविधिर्वृधा स्यात्त्वदीयशक्रिया सुर शत्रुनाशः अनन्तशकृतिप्रकृतिः पुरा त्वां समर्च्य दुष्टं महिषं जघान यच्छ्वा स निर्धोद न कप्रभात भीतं जगत्कृष्णमिदं ररक्ष कारना च वेदाविकुण्ठास्त्वयि सर्व एव शेषो धराभृत्तवभक्तितो हि त्वामेव नत्वा परिपूजयन्तः सन्तो यजन्ते मनसा स्मरन्तः त्वय्येव भक्तिं परिकल्पयन्तो मुक्तिं भजन्ते परिवृत्तिहीना अपेकरूपाङ्घ्रिविलोचनत्वमनेक शीर्षश्रुति बहुजिह्वः अनन्तविज्ञानखनो ह्यनेकब्रह्माण्डहेदुः परमप्रकाशः तव प्रसादादविमुक्तमेतदृष्टं चिराद्यत्नवदाखिलेश मुनिरुवाच एवं स्तुत्वा पूज्य प्रार्थयामास शङ्करः गदं विरह दुःखं मे प्राप्य वाराणसीं पुरीम् इदानीं सर्वदा रक्षमद्भक्तांश्च पुरीमिमां विनाप्रसादं तेनस्यात् काशी स्यात् दण्डपाणेर्भैरवस्य तेऽपि तेपियस्य कृपा भवेद तारकं ब्रह्म तस्यान्ते दिशामि च न चान्यथा मा के मासि चतुर्ध्याम्यो भामवारे विधूदये अपूपैर्मोदकैरन्यैरुपचारैः प्रपूजयेद् संहृत्य तस्य सङ्कष्टं स्तोत्रपाठेन योऽनुयाद तस्यापि सकलान् कामान्यच्च लक्ष्मीमनेकथा य इदं प्रादरुद्धायत्रिसन्ध्यं वापि भक्तितः पठे स्तोत्रं सहृद्वापि भक्तिर्मुक्तिश्च तस्य अन्वेषयित्वा सर्वार्थान्विदधासि नृणामिह तदो डुण्ढिरिधिख्यादस्त्रिलोक्यान्त्वं भविष्यसि डुण्ढिरित्येव तं नाम मुक्तिदं पापनाशनं स्मरणात् सर्वकार्याणां सिद्धिदं च भविष्यति मुनिरुवाच एवमुक्त्वा स्थापयात् स गण्डकीयशिलाकृताम् मूर्तिं धुण्डेर्महादेव प्रासादे चारुनिर्मिते तदोविवेशभवनं सर्वे देवा स्वमन्दिरं दिवोदासस्य मुक्तिं भक्तस्य शङ्करः गृत्समद उवाच एवं विमोहितस्तेन दिवो दासः स्वमायया विष्णुना बौद्धरूपेण तस्यास्य हितं कृतं सर्वं ते कथितं देव सामर्थ्यं ढुण्डिना कृतं एवं प्रभावो देवोऽसौ यद्वरा दुद्धिदः क उवाच एवं गृत्समधप्रोक्त्वा तस्ये दुण्डिविचेष्ठितं गृहीत्वा ज्ञां ययौ शीघ्रं निजमाश्रममण्डलं पत्रमादाय प्रस्थिता तदः दुण्डेरायतनं यादा नाना नारीनरैर्युदम् महोत्सवं प्रगुद्वद्भिर्दृष्ट्वा दृष्ट्वा ययौवाराणसीं पुण्यां पुन्यां माघमासे चतुर्थ्यां सा भौमवारे मुदान्विदा अनेकस्वर्णपात्रस्थैः पक्वान्नै पायसादिभिः पूजितं नक्तनिवहैर्नृत्यगीतविशारदैः नानालङ्कारसंयुक्तं दिव्यमाल्याम्बरावृतं नानामणिगणोपेतं नानामुक्ता विभूषितं सुवर्णरत्ननिचयैर्दक्षिणार्थनिवेदितैः न दृश्यते दे देवमुखमिति पराभवद मया किञ्चमयास्मै किं निवेद्यमिति सा नख सा दूर्वाश्यमिमन्दारकुसुमैर्मार्गसञ्चितैः पुपो भक्त्या पुत्रोदयमया च द शमीमन्दारदूर्वाभिर्यधातुष्टो भवत्तयोः न तधा द्रव्यनिचयैर्दुण्डिराजस्तुतोषः तदोभक्ता गदा सर्वे स्वस्वमन्दिरमादृताः उभौ तौ जननीपुत्रौ सन्निधौ तत्र तस्तदुः तयोर् निराहारतया भक्तिभावेन तोषितः आविरासीन्मूर्तिमध्याद् ढुण्डिराजो महोत्कडः ऊच दुर्मुनिना प्रोक्तं यत्स्वरूपं महेशिदुः तदेतत् पुण्यनिचर्यैर्दृष्टं साक्षात् सुभासुरं सर्वालङ्कारसंयुक्तं मुकुटेन विराजितं दश बाहुधरं चारुनेत्रपङ्कजशोभितम् अनर्घ्यरत्नमुक्तानां बिभ्रद्धाम महत्तरम् पिदाम्बरयुधं दन्दाविराजितमनुत्तमं दृष्ट्वैवं परमं रूपं मग्नावानन्दसागरे विस्मृतौ पूजनं कर्तुं नमस्कारं च तावुभौ उवाज भगवाो वरम वर सुव्रदे सुप्रसन्ना प्रदाया मन से वृतद मुक्ता फलैर्नरत् द्रव्यनाधरह प्रीत यथाशमीप्रैर्मंदरिशोभने उच यकर्ण्य तदवाक्यं कीर्तिस्तोषमियात् परं देहभावं समासाद्य जगादद्विरदाननं किं स्त्रिया वचनं कार्यं सर्वज्ञे सर्वरूपिणी आज्ञयाद तदाप्यूजे सा निष्कलो निष्को निरहकारो निर्गुणसी जगत् पूर्णानपरानंदपुराण परात्पर दिपाललू सोमारक सरगरूपृवायुराशस्तेज जलं तथान्तरिक्षं च गन्धर्वोरगराक्षसाः चराचरस्वरूपस्त्वं दीननाथकृपानिधिः विनायकादिरूपेण व्यक्तिम् प्राप्तोऽसि साम्प्रतम् अद्य मेन धन्ये जन्म भर्ता सुदोप्ययम् पितरौ च शीलं रूपं ज्ञानं तपोपिच च जन्मान्धरीयपुण्येन दृष्टक्षिप्रसादनः तवैव चाज्ञया देवस्थापितास्य तवाभिधा सपत्न्यास्य विषं दत्तं मृद उद्पितः गृत्समदे नुनिना तव भक्वरा शमीपत्र पूजा ते कथिता तव लब्धे मुनि प्रभावा दृष्टोसी तापत्रय निवारना प्रसन्नश्चेदेनाथ भक्ति मे सुदस्यते त्रैलोक्येऽपि यशश्चाघ्र्यं राज्ये निःसङ्गवृत्तिताम् दीर्घायुःसद्गुणग्रामं वरं कीर्तिं सुखं क्षमां विजयं सर्वसंग्रामे द्विजे देवे रदिंपराम् डुण्डिरुवाजा ये ये वरास्त्वया प्रोक्तास्ते ते सहस्र मयानके सहस्रयज्ञकर्ता सौ जीवन्वर्षसहस्रकं शान्तो दान्तो हि मद्भक्तो राज्यं कर्ता स्तुतस्तव चतुर्भिरप्युपायै स वशे सर्वं करिष्यति मम ध्यानम् नामजः सर्वदास्य भविष्यति अन्ते मम स्मृतिम् कृत्वा मत्स्वरूपम् प्रपत्स्यते तस्यै वरान् दत्त्वा परितुष्टो विनायकः तदौ स्वपरशुं तस्य परशु चक्रे नाम स्वयं देवस्ततश्चान्दर्हितो भवत यदि श्रीगणेशपुराणे क्रीडाखण्डे कीर्तेर्वरप्रदानं नामाष्टचत्वारिंशोऽध्यायः ओम्